लक्ष्मी नारायण प्रपत्तिः वसन्त तिलकावृत्ति निबद्धम् लक्ष्मीतरङ्गयुत सागर रूपधारी नारायणाच्युतपदस्थित विष्णुरूपिण वेदान्त वेद्य निखिलागमशास्त्रधार लक्ष्मीपते तव पदम् चरणम् प्रपद्ये देवाधिदेव मृदु पङ्कज पद्मपाद क्षीराभिवासविधि शङ्कर पूज्य मूर्ते केशे शकल्परमयार्चित दिव्य देह लक्ष्मीपते चे चक्रधारि कमलाकर पद्मनेत्र लक्ष्मीपते तव पदम् चरणम् प्रपद्ये मत्स्यावतार निगमादिसुरक्षणाङ्गत्यव्रतायमनुपट्टवरप्रदेश वेदापहारकथमासुरहारमेश लक्ष्मीपते तव पदम् चरणम् प्रपद्ये पूर्वावतार गिरिमन्दर धारणाङ्गक्षीराब्धिजारमणवारुणपुत्रि भक्तः श्रीकच्छपेशदनुजान्तकमोहनाङ्ग लक्ष्मीपते तव पदम् शरणम् प्रपद्ये येषु कराकृतिवराहधरोद्धराङ्गीनपालदि तिजान्तक श्रीधराधर महादशन प्रतार लक्ष्मीपते तव पदम् शरणम् प्रपद्ये लक्ष्मीनृतिंह खलभञ्जन क्रूररूपा लक्ष्मीशतीष्ण नखदंष्ट्रकरालकोप धीभत्तरौद्र न तभत्त सुख लक्ष्मीपते तव पदम् शरणम् प्रपद्ये एवामनाक्ष वामनाख्यपरिबन्धनब्रह्मचारिन् तैलोक्यदिव्यपदमण्डितविक्रमाख्य दैत्यायचक्रपददापितभक्त दात लक्ष्मीपते तव पदम् हे परशुरामजमजग्निजभार्गवाख्य हेतार्थवीर्यखलमर्दनरुद्रशिष्य एष प्रनाशकमहोग्रगुणप्रतापिम् लक्ष्मीपते तव पदम् शरणम् श्रीरामचन्द्र रविवंशज सुन्दराङ्ग सीतापते दशरथात्मज लक्ष्मणाग्र कोदण्डपाणि खल रावण माज जन्म लक्ष्मीपते तव पदम् चरणम् श्रीकृष्णशौर्यवंशचत्वारकेश गोलोकनाथफलमर्दन वेणुमोद पूर्णावतारनि जगीत सुबोधमूर्ते लक्ष्मीपते तव पदम् प्रपद्ये हे पाखण्डवादिकलमोहन दिव्यशक्ता कारुण्यभावनिरपेक्ष निरीहनित्य लक्ष्मीपते तव पदम् चरणम् प्रपद्ये अश्वाधिरूढकविहन्तकर्म जन्म कल्प्यावतार वरभार्गवशिष्यधर्म खड्गायुध प्रमथन प्रसम्लेञ्छनाच लक्ष्मीपते तव पदम् प्रपद्ये हे वा तुदेव भवभञ्जनदीनबन्धो वैकुण्ठकेजव जनार्दनहस्तिबन्धो हेजा हेनारदादिमुनिबन्द्यदयादि लक्ष्मीपते तव पदम् चरणम् प्रपद्ये इति श्रीलक्ष्मीनारायणप्रियणयातप्रीत्यर्थम् च सम्यकृष्णमूर्तिविरचिता एषा लक्ष्मीनारायणप्रपत्तिः सद्गुरुचरणारविन्दयोः समर्पिता अस्तु हरे राम